अथाष्टमः सर्गः परितुष्टस्तु सुग्रीवस्तेन वाक्येन हर्षितः लक्ष्मणस्याग्रजम् शूनमिदम् सुर राज्यम प्रास्वराज्यं कित प्रभो सोहं सभाज्यो बंधूना सुहृदा च राघव मित्रं लब्धं राघववंशजं राघव वंशज अहमप्यन रूपस्ते वयस्येषन न तो वक्त सहम आत्मगता महात्म भूयिष्ठा कृतात्मना निश्चला भवति प्रीतिर्धैर्यमात्मवताम् वरा रजतम् वा सुवर्णम् वा शुभान्याभरणानि च अविभक्तानि साधूनामवगच्छन्ति साधवः पाढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा निर्दोषश्च स दोषश्च वयस्यः परमा सुखत्यागो देशत्यागोऽपि वा नघा वयस्यार्थे प्रवर्तन्ते स्नेहम् दृष्ट्वा तथाविधम् तत्तथेत्यब्रवीद्रामः सुग्रीवम् प्रियवादिनम् लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ततो रामम् दृष्ट्वा लक्ष्मणम् च महाबलम् सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् लो लो सददर्श ततः सुपुष्पमीषत्पत्राढ्यम् भ्रमरैरुपशोभितम् तस्यैकाम् पर्णबहुलाम् शाखाम् भङ्क्त्वा सुशोभिता रामस्यास्तीर्य सुग्रीवो निशसादस तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् शालशाखाम् समुत्पाट्य विनीतमुपवेशयत् सुखोपविष्टम् रामम् यथा सालपुष्पावसङ्कीर्णे तस्मिन् गिरिवरोत्तमे ततः प्रहृष्टः स्वग्रीवश्लक्ष्मया उवाच प्रणया द्रामम् हर्षव्याकुलिताक्षरम् अहम् विनिकृतो भ्रात्राचराम्येष भयार्दितः दृश्यमोकम् गिरिवरम् हृतभार्यः सुदुःखितः सोऽहम् त्रस्तो भये वने सम्भ्रान्तचेतनः वालिनानि कृतो भ्रात्रा कृतवैरश्च राघव वालिनो मे भयार्तस्य सर्वलोकाभयङ्कर ममापि त्वमनाथस्य प्रसादम् कर्तुमर्हसि एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः प्रत्युवाच स काकुत्स्थः सुग्रीवम् प्रहसन्निव उपकारफलम् मित्रमपकारोरिलक्षणम् अद्विषा तव भारहिण इहापत्रिणस्तिजसा कानोता शरा हेम विभूषिता कंकपत्रपरी महेन्द्र शिसवाण सुग्राहषा भुजगा इवा वालि संयम मित्रे भ्रातर कृत कि शरैर्विनिहतम् पश्य विकीर्णमिव पर्वतम् राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः प्रहर्षमतुलम् लेभे साधु साध्विति चाब्रवीत् रामशोकाभिभूतोऽहम् शोकार्तानाम् भवान् गतिः वयस्य इति कृत्वा हि त्वय्यहम् परिदेवये त्वम् हि कृतः प्राणैर्बहुमतः सत्येन च वयस्य इति कृत्वा च विश्रब्धः प्रवदाम्यहम् दुःखमन्तर्गतम् तन्मे मनोहरति नित्यशः एतावदुक्त्वा वचनम् बाष्पदूषितलोचनः बाष्पदूषितयावाचा नोच्चैः शक्नोति तु सहसा धारयामास धैर्येण सुग्रीवो रामसन्निधौ स निगृह्यतु तम् बाष्पम् प्रमृज्यनयने शुभे विनिश्वस्य च तेजस्वी राघवम् पुनरूचिवान् पुराहम् वालिना रामराज्यात् स्वादवरोपितः परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा हृता भार्या सुहृदश्च मदीयाये संयताबन्धनेषु ते यत्नवांश्च स दुष्टा त्वामद्विनाशाय च दृष्ट्वा त्वामपि राघव भीतो भये सर्वे बिभ्यति केवलम् हि सहायामे हनुमत्प्रमुखास्ति अतोऽहम् धारयाम् यद्य प्राणान्कृच्छ्रगतोऽपि सन् एते हि कपयः स्यग्धा माम् रक्षन्ति समन्ततः सह गच्छन्ति गन्तव्ये नित्यम् तिष्ठन्ति चास्थिते सङ्क्षेपस्त्वेषमे राम किमुत्वा विस्तरम् हि ते समे ज्येष्ठोऽपुर्भ्रातावाली विश्रुतपौरुषः तद्विनाशेऽपि मे दुःखम् प्रमृष्टम् स्यादनन्तरम् सुखम् मे जीवितम् चैव तद्विनाशनिबन्धनम् एष मे रामशोकान्तः शोकार्तेन निवेदितः दुःखितः सुखितो वापि सख्युर्नित्यम् सखा गतिः श्रुत्वैतच्चवचो रामः हि कारणम् श्रुत्वा वैरस्य तव वानरा आनन्तर्याद्विधास्यामि सम्प्रधार्य बलाबलम् बलवान् बला हि ममामर्षः श्रुत्वा वर्धते हृदयोत्कम्पी प्रावृद्वेग इवाम्भसः हृष्णः कथय विश्रब्दो यावदारोप्यते धनुः सृष्टश्च हिमया बाणो निरस्तश्च रिपुस्तव एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना प्रहर्षम तु चतर्भे लेभे चतुर्भिः सह वानरैः ततः प्रहर्ष वदनः सुग्रीवो लक्ष्मणाग्रजे वैरस्य कारणम् तत्त्वमाख्यातुमुपचक्रमे इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टमः सर्गः